अथ षष्ठकाण्डे द्वितीयः प्रश्नः प्रारम्भः ओ... यज्ञम् विच्छिन् याद्यदभावविमुच्छेधानागता यादित्यम् गृह्यते तादृगेवणादिस्य सन्तत्यैवत्यन्नारभदेवत्नीः वारेण यस्येषत्न्यैवानुवदन्यद्वदेहद्वैवत्नी यज्ञस्य करोतिमिथनन्द तथा भिया एवैष यज्ञस्यान् वारं वा न वक्षित्यै यावत् सर्वैराजानुचरैरागच्छति सर्वेभ्यमस्य राज्ञाज्ञे राजक्षमसि विष्णवे त्वेत्याः गायत्र्या एवैतेन करादि सामस्यादिक्षमसि विष्णवे त्वेत्याः त्रिष्णः एवैतेन कराद्यतिथेरादिक्षमसि विष्णवे त्वे जा जगत्या एवैतेन करात्यये त्वा राे विष्णवेष्टुभ एवैतेन करादिश्येनायत्वा सभृते विष्णवेयत्र्या एवैतेन कराधिपञ्च कृत्वा गृह्णादिपञ्च वृन्दे ब्रह्मवादिना वदन्ति कस्मा गायत्र्या उभयदादित्यस्य क्रियत सोममाहरत्तस्मा गायत्र्या उभयदादित्यस्य क्रियते पुरस्ता चोपरिष्टा दृशिरो वा एतद्यज्ञस्य यदा दिक्ष्यण्णवकपालः पुरोडा च भवति तस्मान्नवदा शिरोष्यो तन्नवकपालः पुरोडा च भवति एव यज्ञस्य शीर्षं ददाति नवकपालः पुरोडा प्राणेन संयुतास्त्रिवै प्राणस्त्रिवृतमेव प्राणमपि कुर्वै यज्ञस्य शिरिषन्दतानि प्रजापतेर्वा एतानि पक्ष्माणि यदा स्वबालायै क्षवितिरश्चि यदा स्वबालप्रस्तर भवत्यै क्षवितिरश्चि प्रजापतेरेव तच्छ संभरति देवा वै स्मर्यमयान् परिधेन सर्वदैर्वे रक्षाकस्य स्मर्यमया परिधयो भवन्ति रक्षता रक्षतान् पुरस्तार्त रक्षाकस्य परिष्ठादेव प्रतिष्ठत्यै ब्रह्मवादिना वदश्च वा येतो सोमश्च कथा सोमायादित्यं क्रियते नाग्नम् प्रहरति तेनैवाग्नयादित्यं क्रियते सर्वा देवता इतिहासाध्याग्नम्नाय सर्वा देवता जनयति देवास्रा सन्ते देवामितो विप्रिया सन्ते ग्निर्वसभिद्रेरिन्द्रा मदर्भ्यर्वर्णादिश्वे देवैस्तेभ्येभ्यो रन्मिता विप्रिया स्मयान इमा प्रियास्तनमस्ता मेदा निरच्छार्मेत्रिणा त्यात्मनापरास्य भ्रातृया पञ्च कृत्वा वज्यमवाद्यन्तापुञ्जाक्षपान्तो यज्ञो यज्ञमेवावरुन्धापदये त्वा गृह्णामेत्याः प्राणवा प्राणमेव प्रीणादि परिपदय इत्याहमनो वैपरिपधर्मो नैत्याहो शापरायेत्याह शक्ति हि तेदा समवाद्यन्तशक् अन्नो जिष्ठायेत्याहोजिष्ठं हि ते तदात्मनः समवाद्यन्तानाधृष्टमस्य नाधृश्यमित्याहनाधृष्टज्ञोज इत्याह देवानाशस्ति वा न भिषस्तेऽन्यमित्याहभिजस्ति वा एतदनभिजस्तेऽन्यमनमे दीक्षामेक्षापजर्मन्यतामित्याहयजरे है देवा कृत्वा सोममघ्नन्त्यक्षवास्यैतच्चरन्ते नो नेण प्रचरञ्चरगुंशस्येव देव सोमाप्यायतामित्या है देवास्यापवाय देयन्मेयतेत देवास्यैतेनाप्याय यत्याभ्यमिन्द्रप्यायतामात्रन्द्रायप्यायस्वेत्या होभा देवेन्द्रं च सोमं चाप्याय यत्याप्याययशीन् संज्ञा मेधयेत्या हत्यजोवा अस्य सखायस्तान देवाप्यायै स्वस्ति दे देवा ते देवसामसत्यामशीयेत्याहाषमेवैतामाशास्ते प्रवास्माल्लोकाच्यम दे ये साममाप्यायेन्द्रन्दरिक्ष देवच्च महाभ्यायुधेष्ठाराय प्रेषेभगायेत्या हत्या पृथिवीभ्यामेव नमस्कृत्यास्मिल्लोके प्रतिष्ठन्ति देवाधुरासंयत्ताः सन्ते देवाभिभ्यग्निं प्राविशन्तस्मादाहुरग्नः सर्वा देव रोधं कृत्वा सुरारभ्य भवन्नमेव प्रदिशति य वान्तरदीक्षाद्रूत्यात्मानमेव दीक्षया वादु प्रजा भवान्तरदीक्षया सन्तरा मे खलागो समादिच्छते प्रजा स्यात् व्रजा भवति मदं दे धन् वाय इद्रिया तनोवृत्त्या हस्वयैवेन देवतया व्रतैतसयो नत्वा ेषामसुराणां यश्रः प्रहासन्न यस्मैरजता हरिणीता देवाजे तन्नाशक्नुवन्ता उभ दैवादिशन्दस्मादाश्चैवं वेदयश्च न सावै महापुरं जयन्ती समस्कर्वदाज्ञौ शल्यं विष्णुन्ते जनन्ते पृवन्तै क्रोरं वृणा अहमेव पशूनामधिपतिरसानि स्मा ऋत्रः पशूनामधिपदस्ता रुद्रवासत्सद्रः पुरोहित्येभ्यो लोकेभ्योऽसरान् प्राणदयुपसदपसद्यन्ते भ्रातृपराणतेनान्यामाहुतिं पुरस्ता जुहव्याद्यमाहुतिं पुरस्ता जुहन्निं कुर्यात्सुवेणाघारमाघारैर्यज्ञस्य प्रज्ञाङ्ग्यजुहाधिपराजेवेभ्यो लोकेभ्यो यजमानो भ्रातृयान्द्र पुनरत्याक्रम्य वसञ्जाति प्रणद्यैवेभ्यो लोकेभ्यो प्रातुयान् न प्रादुर्योकमभ्यारोहति देवावैया प्रातरुभतन्नहस्ताभिरतुरान् प्राणदन्तया सायगो रात्रियेताभिर्यतरुभसत्यन्ते होरात्राभ्यामेव तद्यजमानोऽभ्यादुर्यान् प्रणदया प्रातर्याद्या सायं पुराणवाक्या कुर्यादयादया त्वाय दस्र उपसद उभै दत्रय इमे लोका इमानेव लोकान् प्रीणाति षट् सम्पद्यन्ते षट्वा ऋधो नैव प्रीणा द्वादशायीने स्वाम उभै दद्वादशमासामेव प्रीणाति चतुर्विकंशतिः सम्पद्यन्ते चतुर्विकंशतिरर्धमासा अर्धमासानेव प्रीणात्यारदीक्षामुपेयामये लोकेऽस्यादित्येकमग्रे धत्रेण एषावाराग्रावान्तरदीक्षास्मिन्नेवस्मै लोकेद्वगम् भवति परोवरीयधीमवान्तरदीक्षाम् वेयाद्यः कामयेतामस्मिन्मे लोके चतुराग्रे धत्रेण धत्वावैकमेषा वै परोवरी यस्य वान्तरदीक्षामुष्मिन्नेवस्मै लोकेऽध्वगम् भवति स्वर्गं वा एते लोकं यन्धिय उपसद उपयन्द्रिशाय उन्नयदेहीयत एव समादनेशीदिसो वै स्वायदाश्रान्तो हि यत उदस निश्चाय सहसस्मात् सकृनापरमुन्नयेनैव पशूनवर्धे देवेभ्यो निरायत विष्णो रूपं कृत्वा पृथिवीं राविषत्तं देवाहस्ता न्दमन्द्र उपर्युपर्यचक्रामत्सो प्लवेत् कोमायमुपर्युपर्यत्य क्रमेदित्यहं दुर्गे हन्तेत्यथकस्त्वमित्यहं दुर्गादाहर्त्यसो प्लवेद्दुर्गे वै हन्दावचारदाहोऽयं नामभाषः सप्तानाङ्गिरीणां परस्ता प्रवेद्रातारथा एतमाहरेतमेभ्यो यज्ञमेव यज्ञमाहरद्युक्तं वेद्यमुसराणामविन्दं तत्रेत्यैवेदित्तमसुराणां प्रसीत्या वराजेन परापस्य दृतावत् देवानां ते देवा प्रवन्नस्त्वेव नस्यामवेदिके त्वागे त्रिः परिक्रामृतावन्ना दे सैन्यस्या सर्वे क्ष्यामि त्रिंशत्नाद्यमवरं तस्मादौषधयप्पलाभवन्ति बलिहसृणादि तस्मादौषधयप्पुनराभवन्त्युत्तरम् बलषरुत्तर बलिहसृणादिप्रया वै बलिहर्यजमानोत्तर बरिहर्यजमानमेवायजमानादुत्तरम् करादि तस्माद्यजमानो यजमानादुत्तरः भारमादत्ते सदिशते यत्त्वादशधान्मस्य भसतस्य स्वाहीनस्य यज्ञस्य विनाथस्यै कस्तनो भागीः सस्तनं मृतमुपैत्य एतत्त्वैक्षरपविनामं येन प्रजातान्नद प्रतिजनिष्यमाणानथीयसैव चक्राग्रेस्तनान् व्रतमुपैत्य धत्रेण धैकमेतत्त्वैनन्नाम व्रतं प्रजया वशभर्य वागोराजन्यस्य व्रतं क्रोधे भवजन्यावज्रस्य रूप्या आविक्षा वैश्यस्य वागयज्ञस्य रूपं पुष्टीवयो ब्राह्मणस्य ते जा वै प्राह्मणस्तेजःपयस्तेजसैव ते जःपय ै ग्या भवत्यात्मानमेव यदत्र वै मनुराजे द्विवृतासुरायकव्रता देवा प्रातर्मध्यं दिने साविङ्गन्मनोर्व्रतमासे पाकयज्ञस्य रूपं मुष्ट्ये प्रातश्च सायङ्कासुराणां मध्यं क्षुतो रूपं तदस्ते पराभवन् मध्यन्दिने मध्यरात्रे देवानां तदस्ते तदस्तेभवन् ्रतं भवत्यै भव एष यद्देक्षितो निर्दीक्षितमि यद् देक्षितो देक्षितमिधादुगेव प्रवस्तव्यमात्मनो गो वीथैष वै व्याघर्पुलगो स्तस्माद्यप्रवसेत्स एनमेश्वरो नोत्थायहङ्गण प्रवस्तव्यमात्मनो वृत्त्यै दक्षिणदर्शय एतद्वै यजमानस्यायुतनत्व एवायुतनेश यत्नमभ्यावृत्त्यशये देवता एव यत्नमभ्यावृत्यशये पुराहविशिदे वैदनेयाजयेद्य नाम येतो वै नमत्करो यज्ञानमेदभिसु वर्गं लोकञ्जयेत्येद्वै पुरोहवित्ते वैदनं यस्य होदाप्राकरणवाकमनुप्रवदित्यमभिपश्यज्ञानमत्यभिषु वर्गं लोकञ्जयेत्याप्ते वैदनेयाजये स्पर्शयेनानुसेया तवैनरथा एतद्वा आप्तन्ते वैदनमाप् ेव भ्रादुर्यन्नैनं भ्रादुर्यत्येको अन्नदे वैजने याजयेत् पशुकाममेको अन्नदात्मैदेवैजनादङ्ग्यशोन्नस्या देदत्म एकोऽन्नदं देवयजनं पशुमादेव भवति प्रियन्नदे वैजने याजयेत् स्वर्गकामं प्रियन्नदात्म्येवयजनादङ्गिरस्वर्गं लोकमायन्नन्तराहवनीयञ्च विज्ञानञ्च स्यान्धरा वृत्तान्दसदस्यान्तरा तदश्चकारः पत्यन्देतद्वै त्रियन्मदन्दे वैजनगौ सुमेव लोकमेदि प्रतिष्ठिते दे वैजनेयाजयेत् प्रतिष्ठाकाममेतद्वै प्रतिष्ठितं दे वैजनं यः सर्वदा समं वृत्यैव तिष्ठते यत्रान्यान्यावोषधयोत्याजये पशुकाममेतद्वै पशूनागो रूपगो रूपेणैवास्मि पशूनवरुन्धे पशुमानेव भवति निरुति गृहीते दे वैजनेयाजये निरत्याैवाङ्ग्राहय दिव्यावृत्यये दे वैजनैयादे वामीमामोधेरन् राचीनमाहवनीयाङ्गारो तद्देव्यावर्तं दे वैजनं विवात्मना भ्रातृणावर्तते नैनं पात्रे न मे माघो सञ्जये कार्ये देवय जनेयाजयेभूतिकामम् कार्योऽभिपुरुषो भवत्येव उत्तरवेदस्य गुंहे रूपं कृत्वा भयानन्तरापक्रम्या तिष्ठत्ते देवामन्त्रयन् सर्वान् पूर्वामग्ने व्याघारयन्त्रैवा मेसीत्यावत्तिक्तायने मेसीत्याहसिक्तान ये नानावलवदान्माव्यत्याहव्यस्तामेवावन्धे तोष्णेन्द्रमेवावरुन्धेरसिंहेभयान् ्रम्याप्रथस्वरुते यज्ञपदि प्रसतामित्याह यजमानमेव प्रजयाति देवाश्चेदुत्तरवेदीभाववर्तिहैव विजयामहा इत्यं च देवानप्यायन्द्रघोषावसुभिः पुरस्ताद क्षणत पश्चात् विश्वकर्मादित्यैरुत्तरतोमुत्तरवेदिम् प्रोक्षतिताम् दक्षिणत उत्तरवेद्यामुच्छिष्येत तत् दक्षिणत उत्तरवेद्येन नयेत्यदेव तत्रैवयति सोत्तरवेदिन प्रवेत् सर्वान्मया कामान्यष्ण्ये देवायन्ताहे सुरान्ता प्रजां निन्दे महीदिते जोहवीरसृस्वाहे दिते प्रजापविन्दन् प्रजां वित्वा कामयन्तन्दे महीदिते जोहवीरय शवनिस्वाहेदिते पशोनमिन्दं तते वित्वा गामयिन्द प्रतिष्ठां विन्दे महे जितेजुहवस्य गुहेरस्यादित्यवनिस्वाहेदित इमां देवता आदिशौवेयामे जितेजुहवस्य गुहेरस्याव देवां देवयिते यजमानाय स्वाहेदिते देवता आदिशौपाजं पञ्चकृत्वा व्याघाक्षराङ्गो यज्ञो यज्ञमेवावरन् ीणादिवान् लोकानां भ्रातर आसन्ते देवेभ्य ह्यं वहन्त प्रामीयन्त धीशतानेयां पशताम्बे त्वस्यां ददाशृदं देवता प्रेषणे छन्दमन्वविन्द्रुवन्वनावर्तस्व हव्यं वृणय्य देव गृहे स्याहुदस्य मे परधिस्कन्धात्तन्मे प्रातृणां गागधेयमसस्माद्युदस्य मे परधिस्कन्दां तद्वाधे छन्दते ीणादि सुमन्यतास्थन्वन्तस्थान्यशातपो द्रवजन्मापन् सम्भरज्जज्ञमेव तत्सम्भरजज्ञे पुरेशमदीत्या वैनन्देभ्रातरः परिषेरे यो दुद्रवा परिधे बद्धमवस्य रिवर्णपाशादेवेनेति प्रणेनेक्तिमे करोति सावित्रै दुर्या श्यान् जीवत्युगा हि सर्वस्य मित्रं मित्रत्वा हेद्वैवत् क्षागो दीर्घागो हन्ति वैष्णवे यज्ञा वै विष्णुर्यज्ञा देव रक्षागस्य वहन्तेजहो यज्ञवत्येव जहो जनान्धो यज्ञो रक्षागो जिघ्नन् प्राधिप्र ेने लोकङ्गमेत्यत्रमेतत् पृथिव्या यत्ते वैजनो वा एतद्यज्ञस्येत्थानं दिवो वा विष्णवद वा पृथिव्या इत्याशीर्पदयत्या दक्षिणस्य वित्थानस्य मेधे निहं दिशीर्षत एव यज्ञस्य यजमान आशिषो वृन्धे दण्डो वा औपरस्तृतीयस्य विद्धानस्य कारेणाक्षमच तृतीयं व्यनयो स्यावरुद्धिरा वा एतद्यज्ञानम् विष्णोरराडमसि विष्णोः पृष्ठमसीत्याः वैष्णवगो हि देवतया व्यर्थानयम् प्रथमम् एतमे देवस्य प्रसवैत्य प्रमादत् प्रसो बाहुव्यामित्याहो हि देवामित्याह यजैवो रक्षागोन्लिखित गो रक्षपरित्याहत्याभिन्ता यं विष्मैत्याहद्वौ वा प्रोक्षति परस्ता धर्वाजीं प्रोक्षति तस्मात् परस्ता सर्वाजी मनुष्या ओर्जमव देवन्दे क्रोधमि भवा एतत् यमो वनय दिशान्त्यै मम देववनय ऊर्गुदम्बर ऊर्जैवोर्जगो समर्थमानेन संमितौदुम्बरे यजमानस्ताहुमेवस्मिन्नोर्जन् दधातिखादयत्परेनवस्थीर्यमितृदेवत्या निखाता स्यात्परेर्यमिनोच्चस्यामेवैनाम् मिनोच स्वारुहमेवैनाम् करोत्यवर्गस्तना णेत्याहैषान् लोकानां विधृत्येदानस्वा मात्याहत्युदानाहस्वैमा ऋतो देवानाम औदुम्बरे नैवेष्टमित्या वा पृथिवी आपृणेधामित्यौदुम्बर्याञ्जो दृत्या वा पृथिवी एव रसेनानख्यान्तमन्वस्रावेच्छान्तमेवेजमानन्देजानख्येन्द्रमधीति श्रिरथिनदधात्येन्द्र ेवजनस्य छायेत्याह विश्वजनस्य एषा छाया यत्सद नवशति तेजस्कामस्यैव भवत्येकादश्रिकामस्य दृष्टिन्द्रियम् दृष्टिन्द्रिया पञ्चदशस्य सप्तदश प्रजापतिप्रजापते प्रतिष्ठाकामस्य एव प्रजानामो लोके वै दक्षिणादिव्यिणांत्तराणि कर यजमानमेव यजमानादुत्तरं करा तस्माद्यमान यजमानादुत्तरान्तर्तान्तर्यावृत्यै तस्मादरण्यं प्रजा उपजीवन्त्य ैत्याहेन्द्रस्य रसेन्द्रस्य ध्रुवमन् इन्द्रमो हि देवतया सदोऽयम् प्रथमम् ग्रन्थिम् कृ शिरो वा एतत् यज्ञस्य वृत्थानं प्राणा प्रवाह वृत्थाने खायन्ते तस्मात् शीर्षं प्राणाधस्ता खायन्ते तस्माधस्ताीर्षं प्राणालघनो वैष्णवान् खनामीत्याह वैष्णवा हि देवतयो प्रवाह सुरावैरयन्दो देवानां प्राणेषु बलगान्य खनन्दान् बाहु मात्रेन्दस्मात् बाहुमात्राखायन्दन्तं वलगमुद्वमयन्नस् यमजखानेत्याव पुरुषो यश्चैव समानो यश्चासमानोऽयमेवास्मैन्यखनतस्यमेव त्वपरिसन्दृणत्यस्मात् सन्दृन्नान्तरत प्राणानसम्भिन्नत्यतस्मादसं भिन्ना प्राणा अपवनयति तस्मादान्तरत प्राणायवदेवनयत्योर्वैव प्राणा उपरवा प्राणेष्वेवरतः प्राणा आर्ज्ययनव्य घारयते यो वा आद्यं प्राणा उपरवा प्राणेष्वेव ते च दधातिह नो वा एते यज्ञस्येतदिशवणेन सन्दृढस्येहि हनोथ खलु दीर्घ सोमे संधृत्ये धृत्यै शिरो वा एतजे व्यर्थानं प्राणा उपरवाहनोधिशवणे जिह्वा जन्मग्रवाणोदन्तामुखमाहवनी योनाशिकोत्तर यदा खलु वै जिह्या दत्स्वधिकादच्छ समुखं गच्छति यदा मुखं गच्छति त्याहव प्रत्यक्षयन्ति या वै विराजमुखेतोऽहं वेददः एव दहन्ति समप्पयो एवम् वेददः एव षष्ठकाण्डे द्वितीयः प्रश्नः समाप्तः